श्रीहरये नमः अथ षष्ठीं श्रोध्यायः श्रीभगवानुवाच मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः आनन्दं परमात्मानम् आत्मस्थं समुपैति मां गुणमय्या जीवयोन्यां विमुक्तो ज्ञाननिष्ठया गुणेषु मायामात्रेषु दृश्यमानेषु अवस्तुतः वर्तमानो बिनभुमान युज्यते वस्तुभिर्गुणैः सङ्गं न कुर्यात् सतां शिष्णो धरतृपां क्वचित् तस्यानुगस्तमस्यन्धे पधद्यन्धानुगान्धव ऐलस्सम्राडि मां गाताम् अगायत बृहश्रवाः उर्भशीविरखान्मुह्यन् निर्विण्णसौघसंयमे त्यक्त्वात्मानं व्रजन्तीं तां नग्न घोरे तिष्ठेति विक्लवः कामानतृप्तोऽनुजुषन् शुल्लकान् वर्षयामिनीः न वेद यान्तीर्ना यान्तिम् उर्वस्याकृष्टचेतनः ऐल उवाच अहो मे मोघविस्तार कामकश्मलचेतसः देव्या गृहीतकण्ठस्य नायुः कण्ठायि मे स्मृताख नाघं वेधा विनिर्मुक्तः सूर्यो वाप्युदितो मुया मुषितो वर्षभूगानां भानि गतान्युत अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः परिश्चतमात्मानं हित्वा दृढमिवेश्वरं यान्तीं स्त्रियं चान्वगमं नग्नमुन्मत्तवद्धृतं कुतस्तस्यानुभाव स्यात् तेज ईषत्वमेव वा योऽन्वगच्छं श्रियं यान्तीं करवत्पादधाडितः किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा किं विविक्तेन मौनेन श्रीभिर्यस्य मनोहृतं स्वार्थस्य अकोविधं दिङ्मान् मूर्खं पण्डितमानिनं योहम् ईश्वरतां प्राप्य श्रीभिर्गोकरवर्जितः सेवतो वर्षभूकान्मे उर्वश्या अधराशवम् न तृप्यत्यात्मभूकामो वह्राहुतिभिर्यत पुंश्चल्या बहृतं चित्तं कोन्वन्यो मोचितं प्रभुः भगवन्तमदोक्षजं बोधिस्त्यापि देव्या मे शुक्तवाक्येन दुर्मते मनोगतो महामोहो नापयात्यजितात्मनः किमेतया नोपकृतं रज्ज्वा वा सर्पति चेतसः यदजितेन्द्रियः क्वायं मलिमसक्कायो दौर्कन्त्यात्मकोचुषिः क्व गुणास्सौ मनस्याध्या ह्य ध्यासो विद्यया कृतः पित्रो किं तस्मिन् कलेवरे तुच्यनिष्ठे विषजते अहो सभद्रं सुनलं सुष्मितं चम्मुखं स्त्रिय त्वं मां मेतो मज्जास्ति सह मधौ रमतां कृमीणां कियदन्तरम् अतापिनो नोभसज्जेत स्त्रीष्टो स्त्रैणेषु चार्तवेत् विषयेन्द्रियसंयोगान् मनः शुभ्यति नान्यत अदृष्टात् अदृशाद्भावात् न भावमुपजायते असम्प्रयुञ्जतः प्राणान् साम्यतिस्तिमितं मनः तस्मात् सङ्गो चेन्द्रियैः विदुषां साव्यविश्रब्ध षट्वर्गः श्रीभगवानुवाच एवं प्रगाय नृपदेवदेव सर्वर्वशी लोकमतो विहाय आत्मानम् आत्मनयवगम्यमा वै उपारमज्ञानविधूतमोहः सो दुस्सङ्गमुत्सृज्य सत्सु मनोव्यासङ्गमुक्तिभिः सन्तोनपेक्षामच्छित्ता प्रशान्ता समदर्शिनः निर्ममा निरहङ्कार निर्द्वन्द्वा निष्परिग्रहाः तेषु नित्यं महाभागमहाभागेषु मत्कथाः सम्भवन्ति हि तान् जुषतां प्रपुनद्यघम् ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः मत्पराश्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि भक्तिं लब्धवतः साधो किमन्यत्तवशिष्यते मय्यनन्तगुणे ब्रह्मणे आनन्दानुभवात्मनि यतोपश्रयमाणस्य भगवन्तं विभावसु शीतं भयं तमोभ्येति साधून् संसेवतस्तता निमज्जोन्मज्जतां गोरे भवाब्धौ परमायनं सन्तो ब्रह्मवितश्शान्त नौद्रुटे वाप्सु मज्जत अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् धर्मो वित्तं नृणां प्रेत्य सन्तोर्वाग्भिव्यं सन्तो दिशन्ति चक्षुंषि बहिरर्घः समुत्थितः देवतभान्तवा सन्त सन्त मुक्तसङ्घोमहीमेताम् आत्मा रामश्चचारः इति श्रीमद्भागवते मखापुराणे एकादशस्कन्ते षड्विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहराजकी जय